परमात्मने नम यथार्थ गीता गीता अथ पंचदशो पंचदशोध्या महापुरुषा संसारमुम विभिन्न दृष्ट प्रबोधय प्रयासम अकुव कचिमुषेण भवाटवी कथिय संसार तर्हि केनचित् संसारः सागर इति कथितः अवस्थाभेदेनं भवनदी भवकूपश्च कथितौ केनचित् कदाचिच्च अस्य गोपदेन तुलना कृता केनचिदर्थात् यावानिन्द्रियाणां विस्तारोस्ति तावानेव संसारः अन्तेऽपि समायातावस्था यत् नामलेतभवसिन्धुसुखा हि अर्थात नामग्रहणानन्तरं भवसिन्धुरपि शुष्को जातः इति संसारे किम् पूर्वोक्ताः समुद्राः सन्ति योगेश्वरः श्रीकृष्णः अपि संसारम् समुद्रस्य वृक्षस्य च संज्ञां दत्तवान् द्वादशाध्याये तेनोक्तम् ये सन्ति मम अनन्याः भक्ताः तेषाम् संसारसमुद्रादुद्धारः क्रियते मया अत्र प्रस्तुताध्याये योगेश्वरः श्रीकृष्णः वदति यत् संसारः एको वृक्षोऽस्ति एनम् छिन्दन् एव योगजनः तत्परम् पदम् मार्गते पश्यतु श्रीभगवानुवाच धशाखम् अश्वत्थम् प्राहुर व्ययम् छन्दांसित् अर्जुन ऊर्ध्वमूलम् नाम उपरि भागे परमात्मैव यस्यास्ति मूलम् अध शाख नीच प्रकृतिरव ये शाखा सी एताद संसारूपिण पिप्पल वृक्ष अविनाशिनम कथय वृक्षस्तु अ शामी दिन यदि न यदा भवदेच्छा तम छिंदे कि श्रीकृष्णानुसारेण द्वौ अविनाशिनौ वर्तेते एकः अविनाशी, अविनाशी, वर्ते एक अविनाशी संसाररूपी वृक्षोऽस्ति अपरस्तु परः परमाविनाशी सनातनः अस्ति वेदाः अस्य अविनाशिनः संसारपादपस्य पत्राणि कथितानि सन्ति यो पुरुषः इमम संसाररूपिणम् वृक्षम् पश्यन् विदितं करोति सः वेदज्ञो मन्यते यस्तम् संसारवृक्षम् ज्ञातवान् स वेदमपि ज्ञातवान् न तु ग्रन्थाध्येता पुस्तकाध्ययनेन तु तदभिमुखम् अग्रेसर्तुम् प्रेरणामात्रम् मिलति संसारवृक्षस्य पत्राणाम् स्थानोपरि वेदानाम् का आवश्यकता यथार्थतः पुरुषः अटन् भ्रमन् यम् अन्तिमम् किसलयवृन्तम् अर्थात् अन्तिमम् जन्म गृह्णाति तत एव वेदानाम् तानि छन्दांसि कल्याणस्य सर्जनं कुर्वन्ति तत एव प्रेरणाम् यच्छन्ति तत एव तेषाम् अस्ति उपयोगः तत एव भ्रमः समाप्यते सस्वरूपोन्मुखं स्वरूपोन्मुखम् घूर्णयति तथा अधश्चोर्ध्वम् प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषय प्रवाला अधश्च मूला्यनुसन्ततानि तत्संसारवृक्षस्य त्रिभिः गुणैः संवर्धिता विषयभोगरूपनूतनपल्लवान्विताः शाखाः सर्वत्र प्रसृताः सन्ति नीचैरभिमुखम् कीटपतङ्गम् यावत् उच्चैस्तु देवभावमादाय ब्रह्मपर्य विस्त्रुता वर्तं तथा मनुष्ययोनिहि एव बंधन कारिका सी अपराहा सर्वा योनय केवलं भोगाय संति सी एव कर्मानुसारेण बंधन सूते न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा अश्वत्थमेनम् सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा किन्तु अस्य संसारवृक्षस्य यादम स्वूप वर्णित नादृशम क्वचि कस् नाथा प्रकारेण अस्थि अभी न सुलभा कूमस्ती परिवर्तनशील इमं सुदृढ़मूलम वृक्षम दृढ़े अर्थ वैराग्य वैराग्यू शेण छेदय्वा अर्थ संसारूपृक्ष कर्तनम आवश्यकम न पिप्पल मूले परमात्मस तथा पिप्पल पत्री वेदा सी एवं मनम पिप्पल से आतिक्यम कर्तमेरे अच्छा संसार वृक्ष मूलं तो स्वयं परमात्मैव बीजरूपेण प्रसृतो विद्यते किमसो परमात्मापि छेत्स्यते दृढवैराग्यद्वारेण अस्याः प्रकृतेः सम्बन्धविच्छेदो जायते एतदेव कृन्तनम् कर्तित्वा किम् तत परिमार्गितव्यम् यस्मिन् गता न भूयः तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्ति प्रसृता पुराणी दृढवैराग्यद्वारेण संसारवृक्षस्य कृन्तनानन्तरम् तस्य परमपदपरमेश्वरस्य सम्यग्रूपेण अन्वेषणम् कर्तव्यम् यस्मिन् सम्प्राप्ताः पुरुषाः पुनः संसारे नहि समायान्ति अर्थात् पूर्णनिवृत्तिम् प्राप्तम् कुर्वन्ति किन्तु तस्य परमात्मनः अन्वेषणम् केन प्रकारेण सम्भवमस्ति योगेश्वरः कथयति एतदर्थम् समर्पणम् परमम् आवश्यकमस्ति यस्मात् परमेश्वरात् प्राचीनतमस्य संसारवृक्षस्य प्रवृत्तिः विस्तारः अभवत् तस्य आदिपुरुषस्य परमात्मनः शरणागतोऽस्म्यहम् अर्थात् तस्य शरणगमनं विना वृक्षः न छेत्स्यति इदानीम् शरणागतः वैराग्ये संस्थितः पुरुषः कथम् जानीयात् यत् वृक्षकर्तितः तस्य परिचितिः किमस्ति अतोपरि कथयति कृष्णः निर्माणमोहाजितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वैर्विमुक्ता उपर्युक्तप्रकारेण समर्पणेन यस्य मोहमानौ नष्टौ अभवताम् आसक्तिरूपः सङ्गदोषः येन जितः अध्यात्मनित्या अर्थात् परमात्मनः स्वरूपे यस्य निरन्तरं स्थितिः वर्तते यस्य कामनाः विशेषरूपेण निवृत्ताः अभवन् ज्ञानी ज्ञानीजनः तद् अविनाशिनं परमपदं लभते यावदियम् अवस्था नायाति तावत् संसारवृक्षः न छिद्यते इयत् यावत् वैराग्यस्य आवश्यकता भवति तस्य परमपदस्य स्वरूपं किमस्ति यम् प्राप्नुवन्ति साधकाः न तद्भासयते सूर्यो न शशाङ्को न पावकः यद् गत्वा न निवर्तन्ते तद् तत्परमपदम् तत न सूर्यः न च चन्द्रमाः तथा नाग्निः प्रकाशयति यत् यत परमपदम् सम्प्राप्य मनुष्यः पूर्वोक्तसंसारे न प्रविशति एतदेव मदीयम् परमधाम अस्ति अर्थात् तस्य पुनर्जन्म न भवति अस्य परमपदस्य प्राप्तौ सर्वेषाम् समानोऽधिकारोऽस्ति अत उपरि कथयति कृष्णः ममैवांशो जीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि जीवलोके अर्थात् अस्मिन् देहे अर्थात् शरीरमेव लोकः अस्ति अत्र अयम् जीवात्मा ममैव सनातनः अंशः अस्ति स च उक्तत्रिगुणमयमायाम् स्थितानि मनसा सहितानि पञ्चेन्द्रियाणि आकर्षति कथमित्थम् शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि वायुर्गन्धा येन प्रकारेण वायुः गन्धस्थानतः गन्धम् गृहीत्वा प्रवहति तथैव देहस्य स्वामी जीवात्मा यत्पूर्वशरीरम् त्यजति ततः मनसा सहितपञ्च ज्ञानेन्द्रियस्य कार्यकलापम् गृहीत्वा नाम आकर्षणं कृत्वा सहैव नीत्वा पुनर्यत् शरीरम् प्राप्तम् भवति तस्मिन् प्रविशति अर्थात् यदा अग्रिमम् शरीरम् तत्कालम् मिलति इति सुनिश्चितमस्ति तर्हि पिष्टान्नस्य पिण्डम् विरच्य कस्मै प्रदीयते कहा गृह्णाति अत एव श्रीकृष्णः अर्जुनमुक्तवान् आसीत् यदिदम् अज्ञानम् त्वयि कुतः प्रादुर्भूतम् यत् पिण्डोदकक्रिया लुप्ता भविष्यतीति तत्र गत्वा किं करोति मनसा सहितानि कानि षडिन्द्रियाणि श्रोत्रम् चक्षुःस्पर्शनम् च रसनम् घ्राणमेव च अधिष्ठाय मनश्चायम् विषयानुपसेवते तस्मिन् शरीरे प्रविष्टो भूत्वा अयम् जीवात्मा कर्णाभ्याम् नयनाभ्याम् त्वचा जिह्या नासिकया मनसा च संयुतो अर्थात् एतेषाम् योगेन विषयाणाम् सेवनं करोति किन्तु एवम् न दृष्टिगोचरायते सर्वे तम् द्रष्टुम् न सक्षमाः अत उपरि कथयति श्रीकृष्णः क्रामन्तम् स्थितम् वापि गुञ्जानम् वा गुणान्वितम् विमूढानानुपश्यन्ति पश्यन्ति चक्षुषः शरीरम् विहाय गच्छन्तम् शरीरे स्थितम् विषयान् भुञ्जन्तम् अथवा त्रिगुणयुतं जीवात्मानं विशेषमूढाः अज्ञानिनः च न जानते केवलम् ज्ञानरूपी नेत्रयुताः एव तम् पश्यन्ति साधु एवमेवास्ति इति तेषाम् ज्ञानम् इदानीम् सा दृष्टिः कथम् लभेत अग्रे पश्यतु यतन्तो योगिनश्चैनम् पश्यन्त्यात्मन्यवस्थितम् यतन्तोऽप्यकृतात्मानो नैनम् पश्यन्त्यचेतसः योगिजनाः स्वहृदये चित्तं सर्वतः समाकृष्य एनम् आत्मानं यत्नेन प्रत्यक्षम निक्षन्ते किन्तु अकृतार्थात्मयुक्ताः अर्थात् मलिनान्तःकरणवन्तः मूढजनाः यत्नं कुर्वाणः अपि इमं न विन्दन्ति कुतो हि तेषामन्तःकरणं बाह्यप्रवृत्तिषु सम्प्रति विकीर्णमस्ति चित्तम् सर्वतः समाकृष्य अन्तरात्मनि प्रयत्नशीलाः भावुकजनाः एव तम् प्राप्तुमर्हाः भवन्ति अतः अन्तःकरणेन स्मरणं सततम् भवत्यावश्यकम् इदानीम् तेषाम् महापुरुषाणाम् स्वरूपे याः विभूतयः मिलन्ति यत्पूर्वञ्च वर्णितम् तदुपरी प्रकाशम् वितनोति यदादित्यगतं तेजो जगद्भासयतेऽखिलम् यच्चन्द्रमसि यच्चाग्नौ तत् यत्तेजः सूर्ये संस्थितम् सत् सम्पूर्णम् जगत्प्रकाशयति यत्तेजः चन्द्रमसि विद्यमानं विद्यते यत्तेजः च अग्नौ दीप्यते एतत्तेजःपुञ्जम् त्वं ममैव विद्धि साम्प्रतम् तेन महात्मना विधीयमानम् कार्यम् वर्णयति रामाविश्य च भूतानि धारयाम्यह मोजसा उष्णामि चौषधी सर्वा सोमो भूत्वा रसात्मकः अहमेव पृथिव्याम् प्रविश्य स्वशक्त्या निखिलभूतमण्डलम् दधामि चन्द्रमसि च रसस्वरूपो भूत्वा सम्पूर्णम् वनस्पतिसमूहम् पुष्णामि अहम् वैश्वानरो भूत्वा देहमाश्रितः चतुर्विधम् अहमेव प्राणिनाम् शरीरे जठराग्निरूपेण स्थित्वा प्राणापानाभ्याम् युक्तः चतुष्टयप्रकारकमन्नम् वचामि चतुर्थाध्याये स्वयं योगेश्वरेण श्रीकृष्णेन इन्द्रियाग्निः संयमाग्निः योगाग्निः प्राणापानाग्निः ब्रह्माग्निः इत्यादि त्रयोदशचतुर्दशानाम् अग्नीनाम् उल्लेखः कृतः येषु सर्वेषाम् परिणामः ज्ञानमस्ति ज्ञानमेव अग्निः अस्ति कथयति श्रीकृष्णः एवम् अग्निस्वरूपो भूत्वा प्राणापानाभ्याम् युक्तः चतुर्भिः विधिभिः अर्थात् जपः सदैव श्वासप्रश्वासाभ्याम् भवति तस्य जपस्य चत्वारः सन्ति विधयः वैखरी मध्यमा पश्यन्ति पराश्च एभिः चतुर्भिः विधिभिः समुत्पन्नम् अन्नम् अहमेव पाचयामि श्रीकृष्णमतानुसारेण ब्रह्मैकमात्रमन्नमस्ति येनात्मा पूर्णरूपेण तृप्यते पुनः कदापि न भवति अतृप्तः शरीरस्य पोषकप्रचलितानि अन्नानि तेभ्यः योगेश्वरः आहारस्य संज्ञाम् दत्तवान् युक्ताहारादिः इति वास्तविकं अन्नम् परमात्मास्ति वैखरी मध्यमा पश्यन्ति परायाश्च चतुर्भिः विधिभिः निःसृत्यैव तदन्नं परिपक्वं भवति एतदेव अनेके महापुरुषाः नामरूपलीलाधामेति कथितवन्तः पूर्वं नाम्नः जपः भवति क्रमशः हृदयदेशे इष्टस्य स्वरूपम् प्रकटयितुम् प्रारभते तत्पश्चात् इष्टस्य लीलायाः बोधः भवितुम् लगति यत् सः ईश्वरः केन प्रकारेण प्रतिकणम् व्याप्तः अस्ति केन स सर्वत्र कार्यम् करोति अनेन हृदयदेशे क्रियाकलापानाम् दर्शनमेव लीलास्ति रामलीला रासलीला वद लीला नहि तस्य ईश्वरीयलीलायाश्च प्रत्यक्षम् अनुभूतिं कुर्वन् यदा मूललीला मूललीलाधारिणः जायते संस्पर्शः तदा धाम्नः स्थितिः समायाति ताम् ज्ञात्वा साधकः प्रति तरीपक्वावस्थाया पर्रह्मण स्पर्श त्र सुस्थिभवनम उव अन प्रकारेण प्राण श्वास प्रश्वास्याुक्त भूवा चतुर्धि अर्थ वैखरी मध्यमा पश्यन्ति तथा परायाश्च क्रमशः जाते उत्थाने परायाः पूर्तिकाले तदन्नम् ब्रह्मपरिपक्वम् भवति मिलत्यपि पचत्यपि पात्राण्यपि परिपक्वानी भवन्ति चाहम् हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेद अहमेव सर्वेषाम् प्राणिनाम् हृदये अन्तर्यामि स्वरूपेण स्थितोऽस्मि मम द्वारैव स्वरूपस्य स्मृतिः अर्थात् सुरतिः या तत्वभूतं परमात्मानम् विस्मारयति तस्य स्मरणम् जागरणं भवति प्राप्तिकालस्य चित्रणमिदम् स्मृत्या सहैव ज्ञानम् अर्थात् साक्षात्कारः अपोहनञ्च अर्थात् बाधानाम् शमनम् ममेष्टस्वरूपेणैव भवति वेदस्ेदा कर्ता अर्थ वेद से वेदा अर्थ पृथ गात्वाभवदोध यदा जानन सन् तस्वे प्रतिष्ठ जा तदा कहा कं विजानी वेदस्या स्थित कर्ता अहमेवास् वेदवि चापि अहमेवास्मि अर्थात् अहम् वेदज्ञः अध्यायस्य आरम्भे तेनोक्तम् यत् संसारः वृक्षः अस्ति उपरि परमात्मनः मूलम् अधश्च प्रकृतिपर्यन्तशाखाः सन्ति यः पुरुषः अस्मात् मूलात् प्रकृतेः विभाजनम् कृत्वा जानाति स मूलतो जानाति सवेदविदस्ति अत्र कथयति कृष्णः यदहम् वेदविदस्मि तं यः जानाति श्रीकृष्णः आत्मानम् तेषाम् तुलनायाम् समस्थापयत् कुतो हि स वेदविद् अहमपि वेदवित् तदा तुलना समीचीना श्रीकृष्णः एकः तत्त्वज्ञः महापुरुषः योगिनामपि आसीत् परमयोगी अत्र प्रश्नः जातः समाहितः अथ कथयति यत् संसारे पुरुषस्य रूपद्वयमस्ति द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च अर्जुन अस्मिन् संसारे क्षरम् अर्थात् क्षयशीलाः परिवर्तनशीलाः अक्षरम् अर्थात् अक्षयाह इत्थम् परिवर्तनशीलाः अपरिवर्तनशीलाश्च वर्तन्ते, षाते तु संपूर्णूत प्राणीना शरीर क्षर नाशवच्च क्षरपुर अस्त अद तो अस्तिव श अविनाशी कथ्यते साधनेन, मनसा सहते निरोध अर्थात यस्य अस्ति य्रीयसमूहकूटस्थ अस्व अक्षर उच्य अवस्था पुष्स एव अस्ति यदि शरीरं शरीर शरीर जन्मकार्रमश्चल तदा अस्ति भा क्षरपुष अस्भा अषो्यस् पुरुषस्त्वन्यः परमात्मेत्युदारितः यो लोकत्रयमाविश विभर्त्यव्यय ईश्वरः तयोः क्षराक्षरयोः द्वयोः अत्युत्तमः पुरुषः तु अन्यः एव अस्ति यस्त्रिषु लोकेषु सम्प्रविश्य सर्वस्य धारणम् पोषणञ्च करोति अविनाशी परमात्मा च ईश्वरः एवं वर्णितः अस्ति परमात्मा अव्यक्तः अविनाशि पुरुषोत्तमः इत्यादयः तस्य परिचायकाः शब्दाः सन्ति वस्तुतः अयम् अन्यैवास्ति अर्थात् अनिर्वचनीयोऽस्ति अयम् क्षराक्षरयोः परे परा महापुरुषस्य अन्तिमावस्थास्ति यत् परमात्मेत्यादिभिः शब्दैः सङ्केतितः कुतो विद्यते किन्तु तदन्यः अर्थात् अनिर्वचनीयः वर्तते तस्यामस्थितावेव स्थितावेव योगेश्वरः श्रीकृष्णः निजपरिचयम् ददाति यथा यस्मात् क्षरमतीतोहम् अक्षरादपि अहम् उपर्युक्तनाशवतः परिवर्तनशीलक्षेत्रतः सर्वथा अतीतोऽस्मि अक्षरात् अविनाशिनः कूटस्थात् पुरुषात् च अहम् उत्तमोऽस्मि अतएव एव लोके वेदे च पुरुषोत्तम इति नामना विख्यातोऽस्मि यो मासम्मूढो जानाति पुरुषोत्तमम् माम भारत भारत यथा यहापूं सविस्तर वर्णित यदेवं प्रकारेण पुरुषोत्तमं ज्ञानीषा पुरुषोत्म जानाति अयम सर्व पुषा सर्व प्रकारेण मां परमात्मानम् एव भजति स नास्ति पृथक् इति गुह्यतमं शास्त्रं इदमुक्तं मया नघ कृतकृत्यश्च निष्पाप अर्जुन अनेन प्रकारेण अति अतिगोपनीयम् शास्त्रम् मया विवेचितम् इदम् तत्वेन ज्ञात्वा मनुष्यः पूर्णज्ञः कृतार्थश्च भवति अतः श्रीकृष्णस्य इयं वाणी स्वस्याम् पूर्णं शास्त्रमस्ति श्रीकृष्णस्य इदं रहस्यम् अतीवगोपनीयमासीत् स केवलम् वर्गं प्रत्युक्तवान् इदं रहस्यं, प्रत्युक्तवान। रहस्यं अधिकारिणां कृते आसीत् न सर्वेभ्यः किन्तु इदं रहस्यम् लेखे ोलेखे सीषा पुता पुस्तकम होती अतएव लगती श्रीकृष्ण सर्वान्ती उतवा किंतु वस्तु अव अस्टम स्वूपम सर्वे नासी कचित्षं राजूपेण किदूत कचित् यादवरूपेण मन्यते किन्तु अधिकारिणम् अर्जुनं प्रति नासौ किमपि तिरोधानम् कृतवान् अर्जुनोऽपि ज्ञातवान् यदयम् परमपुरुषः पुरुषोत्तमः कृतेसति गोपने तस्य कल्याणम् न भवितुं शक्यम् इयमेव विशेषता परमात्मपदम् प्राप्तस्य प्रत्येकम् महापुरुषस्य अन्तराले प्राप्ता दृश्यते रामकृष्णपरमहंसदेवः एकदा बहुप्रसन्नासीत् भक्ताः पपृच्छुः अद्य तु भवान् अतिप्रमोदितोऽस्ति सोऽब्रवीत् अद्याहम् सपरमहंसो जातः तस्य समकालीनः कश्चित् आसीत् महापुरुषः परमहंसः तम्प्रति सङ्केतम् अकरोत् किञ्चित् कालानन्तरम् स मनसा कर्मणा वचसा च विरक्तिम् सम्पोष्य स्वानुयायिनः भक्तान् अगादित पश्यत इदानीम् यूयम् संदेहं न कुरुत अहं स एव रामोऽस्मि यहा त्रेतायाम् अभवत् स एव कृष्णोऽस्मि यः द्वापारे आसीत् अहं तस्यैव पवित्रात्मा अस्मि तदेव स्वरूपोऽस्मि यदि प्राप्तिः लक्ष्यमस्ति तर्हि मामपश्यत साधु अनेन प्रकारेण पूज्यगुरुमहाराजाः अपि कथयन्ति स्म हो अहमपि भगवतः दूतोऽस्मि ये सच्चामुचं साधवः सन्ति ते परमात्मनः दूताः कथ्यन्ते मम द्वारैव परमात्मनः सन्देशो मिलति ईसा मसीहेनोक्तम् अहम् भगवतः पुत्रोऽस्मि ममान्तिकम् आगच्छत एतदर्थम् यत् यूयं ईश्वरस्य पुत्राः कथयध्वम् अतः सर्वे ईश्वरस्य पुत्राः भवितुं शक्नुवन्ति आम् इदम् तथ्यं पृथगस्ति यत् अन्तिकागमनस्य प्राप्ति साधना साधनक्रमे अग्रेसरः भवन्सन् तत् पूरणीयम् मुहम्मदसाहबेनोक्तम् अहम् अल्लाहस्य रसूलोऽस्मि सन्देशवाहकोऽस्मि पूज्यमहाराजाः सर्वान् एतदुपदिशन्ति स्म न कस्यापि विचारस्य खण्डनम् न च मण्डनम् किन्तु ये वैराग्यसाधनायाम् सपरिकरस्तत्पराः सा आसन तान् कथयन्ति स्म केवलम् मम स्वरूपम् अवलोकयत यदि तस्य परमतत्त्वस्य कामनास्ति तदा माम् पश्यत सन्देहम् मा कुरुत बहुभिः सन्देहः कृतः तर्हि अनुभवे तान् प्रकाश्य कठोरशब्दप्रयोगम् कृत्वा तान् बाह्यविचारेभ्यः परिवर्त्य यस्मिन् योगेश्वरः नाम श्रीकृष्णस्यानुसारेण यद्वितीयाध्याये चत्वारिंशत् श्लोकतः त्रिचत्वारिंशत्तमश्लोकपर्यन्तम् कथितम् अनन्ताः पूजापद्धतयः सन्ति इति सस्वस्वरूपे नियोजितवान् ते अद्यावधौ महापुरुषेण संस्थिताः सन्ति अनेन प्रकारेण श्रीकृष्णस्य स्वकीया स्थितिः गोपनीया तु किन्तु स्वानन्यभक्तम् पूर्णाधिकारिणम् अनुरागिण् अर्जुन प्रतिशित प्रत्येक भक्त संभव अरंभे योगेण युक्षोस्त पिप्पलसदृशः वृक्षोऽयं पिप्पलः मात्रैकम् उदाहरणमस्ति उपरि पिप्पलस्य अस्य मूलं परमात्मा विद्यते नीचैश्च प्रकृतिः पर्यन्तम् अस्य शाखाप्रशाखाः प्रसृताः सन्ति यः वृक्षमिमं समूलं वेत्ति स अस्ति अस्य संसारवृक्षस्य शाखाः उच्चैः नीचैः च सर्वत्र सन्ति व्याप्ताः मूलानि अर्थात् तस्य मूलजालमपि नीचैरुपरि च सर्वत्र व्याप्तमस्ति कुतो हि तन्मूलमेव ईश्वरः अस्ति स च बीजरूपेण प्रत्येकम् जीवहृदये निवसति पौराणिकम् आख्यानमस्ति यत् एकदा कमलोपरि समासीनः ब्रह्मा विचारितवान् यन्ममोत्पत्तिः कुतः यतः कमलात् सः प्रादुर्भूतः तस्मिन् कमलनाले प्रवेशम् कुर्वन् चलितुमारेभे अनवरतगत्या चलन्नेवासीत् किन्तु उद्गमस्थलम् स न द्रष्टुम् शशाक तदा हताशो भूत्वा तस्मिन् कमलासने स उपविष्टः चित्तस्य निरोधक्रियायां बभूव संलग्नः ध्यानेन च स ब्रह्मा स्वमूलोद्गमं लेभे परमतत्त्वस्य साक्षात्कारम् अचीकरत् प्रार्थयामास च परमस्वरूपतः एव आदेशः मिलितः यत् अहं तु सर्वत्रास्मि किन्तु मम प्राप्तिस्थनमस्ती हृदय देशे यहाय स्रह्मा एक अस्थसाधना पिपक्वावस्थायाथि जागृतिन्मुखी ब्रह्म विद्या संयुक्ता बुद्धि ब्रह्मा सुच्य से कमलं सलीले समधिवसन्नपि निर्मलं निर्लेपञ्च प्रतिष्ठते बुद्धिः यावत् इतस्ततः अन्वेषयति तावन्नासादयति यदा च सैव बुद्धिः निर्मलतायाः आसने समासीना मनसा सहितेन इन्द्रियसमूहं संयोज्य हृदयदेशे निरुणद्धि तन्निरोधस्य अपि विलीनीकरणस्यावस्थायाम् स्वहृदयान्तर्गतमेव परमात्मानम् अत्रापि योगेश्वर श्रीकृष्णस्य मतानुसारेण संसारः वृक्षोऽस्ति यस्य मूलम् सर्वत्र शाखापि सर्वत्र वर्तन्ते कर्मानुबन्धीनि मनुष्यलोके अर्थात् अनुसारेण केवलं मनुष्ययोनौ एव बन्धनं सन्नद्धायते बध्नाति च अपराः योनयः तु एतेषाम् कर्मणाम् अनुसारेण भोगं भुञ्जन्ति अतः दृढवैराग्यरूपिणा शस्त्रेण अस्य संसाररूपपिप्पलवृक्षस्य त्वम् कृन्तनङ्कुरु तच्च परमपदम् अन्वेषय यस्मिन गताः महर्षयः पुनर्जन्म न प्राप्नुवन्ति कथम् ज्ञायेत् यदयम् संसारवृक्षः छेदितः योगेश्वरः समुदीरयति यत् यः मानमोहाभ्याम् सर्वतोविरहितोऽस्ति यः सङ्गदोषम् जितवान् यस्य कामनाः निवृत्ताः यश्च द्वन्द्वमुक्तः सः पुरुषः परमतत्त्वम् प्राप्नोति तत्परमपदम् न च सूर्यः न च चन्द्रमाः न चाग्निः प्रकाशयितुम् पारयति स स्वयम्प्रकाशस्वरूपोऽस्ति यत्र गत्वा पुनरावृत्य न इह आयाति तन्मे परमं धाम यस्य प्राप्तेः अधिकारः समानरूपेण सर्वस्य अस्ति कुतो हि स जीवात्मा ममैव शुद्धांशः शरीरस्य त्यागम् कुर्वन्सन् जीवात्मा मनसा सहितपञ्चज्ञानेन्द्रियाणाम् कार्यकलापम् नीत्वा नूतनं शरीरं दधाति संस्कारः सात्विकः अस्ति चेत् तर्हि सात्विकम् स्तरं प्राप्नोति संस्कारः राजसः अस्ति चेत् तर्हि मध्यमम् स्थानम् तामसः चेत् संस्कारः तर्हि जघन्ययोनिषु प्रविशति तथा इन्द्रियाणाम् अधिष्ठातुः मनसः माध्यमेन विषयान् पश्यति भुनक्ति च नैतद्दृष्टिपथायते एतस्य दर्शनस्य दृष्टिः ज्ञानमस्ति किञ्चित् स्मरणस्य नाम ज्ञानम् नास्ति योगिजनाः हृदये चित्तम् समाकृष्य सप्रयत्नम् तद् शक्नुवन्ति अतः ज्ञानम् साधनगम्यमस्ति आम् अध्ययनेन तत्प्रति अभिरुचिः उत्पद्यते संशयुक्तः अकृतार्थात्मा जनः प्रयत्ने कृतेऽपि न ते न प्राप्तुमर्हति अत्र प्राप्तिवतः स्थानस्य चित्रणमस्ति अतः तस्याः अवस्थायाः विभूतीनाम् प्रभावः स्वाभाविकः अस्ति तदुपरि प्रकाशम् विकीरन् योगेश्वरः श्रीकृष्णः कथयति यत् सूर्ये चन्द्रमसी च प्रकाशः अहमस्मि अग्नौ तेजः अहमस्मि अहमेव प्रचण्डाग्निरूपे च चतुर्भिः विधिभिः परिपचनीयम् अन्नम् पचामि श्रीकृष्णस्य शब्देषु अन्नमस्ति एकमात्रम् ब्रह्म अर्थात् अन्नम् ब्रह्मेति व्यजानात् यस्याः उपनिषदः श्रीकृष्णः प्रसङ्गम् अमुम् उत्थापितवान् तस्याः निर्णयः अयमेवास्ति यम् प्राप्य आत्मा अयम् तृप्तो भवति वैखरीतः परापर्यन्तम् अन्नम् पूर्णपरिपक्वम् भूत्वा पच्यते तत्पात्रमपि विलीयते इदम् अन्नम् अहमेव पाचयामि अर्थात सद्गुरुः यावत् सारथ्यम् न विदधीत तावत् इयम् उपलब्धिः न भवति अत उपरि बलम् ददानेन योगेश्वरेण श्रीकृष्णेन वावद्यते यत् सर्वेषाम् प्राणिनाम् अंतरदेशे स्थितो भूत्वा अहमेव स्मृतिम् दापयामि यत् स्वरूपम् विस्मृतम् आसीत् तस्य स्मरणम् अहमेव कारयामि स्मरणेन सह प्राप्तव्यं ज्ञानम् अपि अहमेवास्मि तत्र सम्भावितानां बाधानां निराकरणमपि मत्तः भवति अहमेव वेद्योऽस्मि विदिते सति च बोधस्यान्तकर्तापि अहमस्मि कः कं विजानीयात् अहं वेदविदस्मि अध्यायस्य आरम्भे कथितमासीत् यः संसारवृक्षं मूलसहितं जानाति स वेदविदस्ति किन्तु तस्य छेदकः एव जानाति अत्र कथयति अहमपि वेदविदस्मि तेषु वेदवित्सु अपि गणनां करोति अतः श्रीकृष्णः अपि अत्र वेदवित् पुरुषोत्तमः अस्ति यं प्राप्तुम् अधिकारः मानवमात्रस्य अस्ति अन्ते तेनोक्तं लोके त्रिप्रकारकाः पुरुषाः सन्ति भूतादिकानां सम्पूर्णं शरीरं क्षरमस्ति मनसः कूटावस्थायां पुरुषः अयम् अक्षरः किन्तु अस्ति द्वन्द्वात्मकः इतोपि परतः यो स परमात्मा परमेश्वरः अव्यक्तः अविनाशी च समुच्यते सः वस्तुतः अन्यः अस्ति इयं क्षराक्षराभ्याम् परावस्थास्ति इयमेव परमस्थितिः इमम् सुसंगतं कुर्वन् कथयति कृष्णः यत् अहमपि क्षराक्षराभ्याम् परतः स एव अस्मि एतस्मात् जनाः माम् पुरुषोत्तमम् कथयन्ति अनेन प्रकारेण उत्तमं पुरुषं ये जानन्ति ते ज्ञानिनः भक्तजनाः सदैव सर्वतो मामेव भजन्ते तेषाम् अवबोधे नास्ति अन्तरम् अर्जुन इदम् अत्यन्तम् गोपनीयम् रहस्यम् अहम् त्वाम् प्रति कथितवान् प्राप्तिकर्तारः सर्वेषाम् पुरतः न कथयन्ति किन्तु अधिकारी भक्ततः गोपनमपि न विदधाति गोपनम् करिष्यन्ति चेत् तर्हि भक्तः कथम् प्राप्स्यति अस्मिन् अध्याये आत्मनः तिसॄणाम् स्थितीनाम् चित्रणं क्षराक्षरयोः अपि विवेचनम् तथा बहूत्तमपुरुषस्य रूपमपि स्पष्टम् कृतम् यथेतः पूर्वस्मिन् कस्मिन् अपि अध्याये न अस्ति अतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः इति श्रीमत्परमहंसपरमानन्दस्य शिष्यस्वामी अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः हरिः ओम् तत्सत्